गणेशपुराणम् उपासनाखण्डम् अध्यायं फैव् तदो मादरमभ्यत्यस्नेहकादर याधिया तां जगादकथं मादस्त्यजसेनपराधिनं पुत्र उवाच सहैवयादु पुत्रोऽयमिति वाच्यस्त्वया पिता तव वाक्यानुरोधेन यदि मां सहनेष्यति तदा वां सेवनं कुर्यां नमे राज्ये मदिस्तद्धा किं तद्राज्यं सुखं तद्याद्भवद्भ्यां रहितस्य मे वाचा ये यदुशोकाभ्याुक्त राज्यति महाबाहो तम गमार पादीव्र धर्मेण पति भर्तु भर्तुरोंो न देंोस्तिषिता मान्य च सूत उवाच इत्याकर्ण्यनमश्चक्रे मादरं ससुहृत्सुतः प्रदक्षिणीकृत्य ततो नुज्ञां प्राप्य पुरं ययौ नागरीखै पताकाध्वजपल्लवैः सिक्दमार्गं सुगन्धाढ्यम् यथेन्द्रनगरं तथा दत्त्वा ताम्बूलवासांसि विसृज्य स्वजनान् नृपः प्रविवेशगृहम् चकार राज्यं धर्मेण सुधवत्पालयन् प्रजाः धर्मार्थकाममोक्षेषु यथा शिक्षं मनो दधे ऋषय ऊचुः कथं राजा सोमकान्ध किंवनं किं सहायश्च किं चक्रे कर्मणो वदविस्तराद सूत उवाच हन्तवः कथयिष्यामि सोमकान्दो यथा वनं गत्वा चकारयत् कार्यं सादरं शृणुतानकाः सुबलज्ञानगम्या ममात्याभ्यां सुधर्मया धर्मभयायुतोरण्यं प्रविवेशदुरासदम् अग्रधप्रकृतियाधो मध्ये राजाधपृष्ठदः धर्मपत्नी सुधर्मागात्सीतेव रामपृष्ठदः एका शनाश्च चत्वार एकचित्ता समदुःखसुखाश्चापि वनाध्वनमुपाययुः क्षुधातृशाश्रमैर्वापि निम्नोन्नदगदाध्वभिः अत्यन्तकर्षितश्चायामाश्रुत्योपाविशन् क्वचिद पुनर्वनान्तरं गत्वा ददृशुस्ते सरो महत यत्र मादङ्गसदृशानक्राभान्दिसकच्छपाः तालास्तमाला सरलाः प्रियालाबकुलाशुभाः सरलाः पनसा जम्बू निम्बाश्वत्थवडादयः वृक्षा नानालदाजालैर्वेष्टिताः परितो बभुः यत्रास्तेतिमिरं गाढं गिरिदर्युदरे यत्र वायुः यस्मान्न यन्ति मुनयो विस्सासन च फलानि च यत्र हंसा बगाह्य न सुकाश्च नानारावान्विकुर्वते न लदापुष्पकुजाश्रितानां। शीतोष्णकरांशुसन्धिर्नाना लता लदा यत्र न चैव मृत्युस्वर्गे यथा पुण्यवदां द्विजेन्द्राः तत्रगत्वा जलं सर्वे पपुः श्रमापहम् स्नात्वा नित्यक्रियां कृत्वा फलानि बुभुजुश्च ते सुष्वापचक्षणं राजा कच्छे कोमलवालुगे धर्मपत्नी सुधर्मा च पादसंवाहने स्थिता तस्यानुमदमाज्ञायद्वावमात्यावगच्छताम् आद्रदुं कन्दमूलानि जविसानि च ददर्शतत्राद्भुतरूपमुग्रं बालं सुधर्मा प्रभया ज्वलन्दम् उत्कृष्टरूपस्य कृते जादं पुरा बालमिति दृष्ट्वैव सोदं जहृषे सुधर्मा मेनेक्षतं साहितकारिणं च क्षुब्धं प्रसन्नं हृदयं समीक्ष्या पकारिणं चोपकरं हि वक्री पप्रच्छदं कश्च कुतश्च याधः पुत्रो जननी चका ते वदस्वशब्दामृदधारयामि सखेव कर्णौ परतोषयासु सुत उवाच यदि स्म पृष्ठः स जगादबालस्तां राजपुत्रीं पिता भृगुर्भामिनि मे पुलो मामादाजलार्द्धि स्वगृहादिहागां च्यवनः खलु नाम्नाहं पितुराज्ञाकरशुभे त्वं च का कदमो यन्ते कथं कदम वनमिदं गदः स्रवन्ति कथमङ्गानि वर्षा काले गिरे गिरेव अति दुर्गंधद कृमिभारकीर्णमु वासे वसे कथ स्वयंतरा भूत्वा सुकुम सुलोचना चारुप्रसन्नवदनाचारुसर्वाङ्गशोभिनी कच्चित्पूर्वं न पित्रा दे सुहृद्भिर्भ्रातृभिर्द्विजैः विज्ञातोऽयं वरः कुष्ठीकृमिभाराकुलोऽपि च कथमेनं वृतवदी दुर्गमं चा सूत उवाच इति पृष्टा सुधर्मा सा मुनिपुत्रेण धीमता व्याचष्टे सकलं तस्मै शोकहर्षसमन्विता सुधर्मोवाच सौराष्ट्रदेशे विख्यातं देवताख्यं पुरमहत तत्रायं सोमकांदोमे मे राज्यं चकारः अधिमानी वदान्यश्च शूरो दृढपराक्रमः असङ्ख्या तलोपेदो रिपुराष्ट्रविमर्दनः यज्ज्वादिसुन्दरश्रीमान् सुहृदानन्दकारकः विवेक्तास्सर्वकार्याणां निधिशास्त्रविशारदः राज्यं स्वम्बुभुजे राजा बहुकालं द्विजोत्तम इमामवस्थां सम्प्राप्तपूर्वकर्मविभाकदः अमात्यद्वयसंयुक्तो वनमेदत्समागदः भ्रमन्दी पृष्ठलग्नस्य पुत्रे राज्यं प्रयच्छतः सुबलज्ञानगम्याभ्यां प्रकृतिभ्यामिहा गदा राज्ञोऽनुज्ञां समादाय फलार्थं तौ वने गतौ इहास्मान् राक्षसाः प्रेधा भूतानि मृगपक्षिणः नानाविधा भीषयन्ति कथं नो न जाने दुःखभोगायस्तापयन्त्यग्रतोऽपि च दुःखस्यान्तं न कर्मणो दुष्कृतस्य च कडु म्ललवणमधुरस्निग्धभोजने न तथा रुचिरस्याभूत्परी तस्य द्विजातिभिः यथेदानीं कन्दमूलकषायाम्लफलादिषु दरिद्राणां महाहारपाकोऽपि भक्षितस्य च न तद्धा श्रीमदां शक्तिरशने पाक एव च यस्य दे कोमले दिव्ये शयने मनोरमे इदानीं यत्र कुत्रापि पश्यकालविपर्ययं यस्य दिग्व्यापिनश्चाः सन्ना परिमला शुभाः य आनन्दमये सिन्धौ मग्नोऽभूत् पण्डितैर्वृतः पूयशोनिददिग्धस्य भूदिगन्धोऽपि साम्प्रतं स इदानीं दुःखमये कृमिभिः परिवारितः कथन्तरेम दुःखाब्धिं न जाने भवपोत इवागाधे मज्जन्तं नौरिवार्णवे इति श्रीगणेशपुराणे उपासनाखण्डे सुधर्माच्यवनसंवादो नाम पञ्चमोऽध्यायः ओ